नमस् सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अस्माकं करपत्रमस्ति धर्मः नाम कः इति तत्र एतावत् एतावता अस्माभिः दृष्टम् वयं कथं मानवः इति वयं भवितुं शक्नुमः मानवः इत्यस्य अर्थः कः वयं कथं मानवत्वं प्राप्तुं शक्नुमः कथं मानवः पशुभ्यः भिन्नः इत्यपि अस्माभिः चर्चितम् अपि च अस्मकं सर्वेषां जीवने कदाचित् तादृशसमयः आयाति अस्मिन् जन्मनि वा नो चेत् अग्रिम अग्रिम अग्रिमेषु जन्मसु वा कदाचित् तादृशसमयः आयाति यदा वयम् आत्मसाक्षात्कारं कर्तुं शक्नुमः यत् मम जीवनस्य लक्ष्यं भिन्नमस्ति अत्र लौकिकसुखमेव मम जीवनस्य लक्ष्यं नास्ति लौकिकजीव लौकिकवस्तुभ्यः मम आत्मतृप्तिः न भवति यतोहि एतैः लौकिक सुखेभ्यः तत्र किं धनं वा भवतु पदवी वा भवतु अन्नं वा भवतु वस्त्रं वा भवतु श्रेयः वा भवतु यत्किमपि वा भवतु यद् यद लौकिक आकर्षणम् तेभ्यः मम आन्तरिक तृप्तिः आन्तरिकतृप्तिः न भवति इति कदाचित् मनुष्यः अवश्यम् अवगच्छति यतोहि एतानि सर्वाणि वस्तूनि तत्र mm. पशुस्वभावमेव एतानि वस्त्र एतानि वस्तूनि पोषयन्ति इति कृत्वा तत्र यावत् बहु अधिकं धनं लभ्यते चेदपि सुखं न भवति अस्मा अस्माकम् अन्ते स्वभाव स्वभावद्वयं वर्तते वयं पशुभ्यः विकसिताः इति कृत्वा अस्माकम् अन्ते पशुस्वभावः अपि वर्तते अपि च अन्यः अपि धर्मः वर्तते सः धर्मः अस्ति मानवधर्मः सः मानवधर्मः कः इति चेत् अनन्तैषणा अनन्तेषणा एव मानवधर्मः अनन्तस्य इच्छा एव मानवस्य धर्मः इति धर्मद्वयं वर्तते अस्माकम् अन्ते तर्हि प्रायेणजनाः पशुधर्मसेवपालनं कुर्वन्ति यतो ते न जानन्ति परन्तु सर्वेषां मनुष्याणां जीवने कदाचित कदाचित् तादृशसमयः आयाति यदा तेषाम् अन्तचक्षुः उद्घाटितः भवति यदा ते लौकिकसुखात् सुखिनः न भवन्ति एतत्तु बहु क्रिटिकल् शिफ्ट् अस्ति मनुष्यस्य जीवने यत् यतोहि एतावता ते तु मनुष्यरूपेण पशवः एव आसन् परन्तु यदा तेषाम् अन्तःश्चक्षुः उत्कटितः भवति तदानीं ते मनुष्यत्वं प्राप्तुं यत्नं कुर्वन्ति एतदेव वयं वदामः द्वितीयः द्वितीयं जन्म तत्र द्विजः इति वयं वदामः खलु द्वितीयः द्वितीयं जन्म तर्हि प्रथमं प्रथमं जन्म तु शारीरिकजन्म यदा मातुः गर्भात् अस्माकं जन्म भवति तदेव शारीरिकजन्म प्रथमजन् प्रथमं जन्म अस्माकं प्रथम प्रथमे जन्मनि पशुव्यवहारः एव आसीत् आदौ यतोहि बाल्यकाले तु अस्माकं व्यवहारः पशुवशवत् भवति खलु आहारः निद्रा भय भयम् इति तावत् तथा भवति इति पशुव्यवहारः एव भवति परन्तु यदा अस्माकं मर्दनं भवति तदानीं कदाचित् वयं यदस्माकं पुरतः अस्ति तेभ्यः वयं सन्तुष्टाः न स्मः तदानीम् अस्माकम् अन्य अन्यस्य अन्वेषण आरभ्यते अन्यत् किमपि अहम् इच्छामि इति तादृशी आकाङ्क्षा यदा भवति अन्यत् किमपि गाढतया किमपि अहं प्राप्तुम् इच्छामि यतोहि सर्वेषां सर्वेषां जीवानां सुखस्य इच्छा वर्तते सर्वे सुखिनः भवितुम् इच्छन्ति पशवः तु सुखार्थं किम् अपेक्षितम् इति ते जानन्ति इति कृत्वा तस्य तद् तस्य अन्वेषणं कृत्वा ते सुखिनः भवन्ति यतोहि तेषाम् अन्यत् किमपि अपेक्षा नास्ति आहारनिद्राभयं मैथुनम् इति तावदस्ति चेत् ते सुखिनः भवन्ति परन्तु मनुष्याणां कृते आहारनिद्राभयं मैथुनम् इतोपि धनम् एतत् सर्वं लौकिकवस्तु यत्किमपि अस्ति तत्सर्वम् अस्ति चेदपि ते सुखिनः न भवन्ति तेन वयम् अवगन्तुं शक्नुमः इव यद्यपि मनुष्याः सुखिनः भवितुम् इच्छन्ति परन्तु ते ते न जानन्ति केन तत्र अनन्तेषणायाः पूर्तिः भवति इति न जानन्ति इति कृत्वा ते लौकिकसुख सुख सुखस्य सुक, पृष्ठतः धावन्तः भवन्ति अतः एव तत्र यत्किमपि अधिकं लभ्यते चेदपि ते ते न भवन्ति इति तृप्ताः न भवन्ति तर्हि यदा तत्र तेषाम् अन्तश्चक्षुः उद्घाटितः भवति यदा तत्र गुरोः सकाशात् ते ज्ञायन्ते यत् तेषाम् अनन्तेषणा वर्तते तस्य तृप्तिः तस्याः तृप्तिः अनन्तेन एव भवति इति यदा ते ज्ञायते तदानीं तस् तस्यां दिशि ते, ते गन्तुं प्रयत्नं कुर्वन्ति तर्हि मनुष्याणाम् अनन्तस्य पिपासा वर्तते इयं पिपासा एव मनुष्याणां धर्मः अस्ति मनुष्याणां धर्मः अस्ति तर्हि आदौ तत्र करपत्रे मनुष्याणां धर्मः कः मनुष्यः सुखस्य प्राप्त्यर्थं किं किं कुर्वन्ति तेन कथं तेषां तृप्तिः न भवति अतः तत्र सुखस्य तृप्त्यर्थं मनुष्यैः किं करणीयम् इति एतत् सर्वम् दृष्टम् इदानीं तत्र करपत्रस्य द्वितीयभागे वयं वदामः अनन् अनन्तः अनन्तः इति वयं वदामः कलु तर्हि अनन्तः कः हू इस् दट् कास्मिक् एण्टिटि हू इस् दट् कान्शियस्नेस् हू इस् दट् सुप्रीम् कान्शियस्नेस् हू इस् दट् परमपुरुष हू इस् दट् ब्रह्म हू इस् दट् यद् सर्वम् उक्तं तत्सर्वम् एक एकमेव एकमेव अनन् अनन्तः कास्मिक् एण्टिटि कान्शियस्नेस् चैतन्यं ब्रह्म परमपुरुषः परम परमचैतन्यं परमपुरुषः इति एतत् सर्वं यद् नामकरणमस्ति तत्सर्वं समानमस्ति अत्र अस्माकं वर्गेषु प्रायेण वयं परमपुरुषः इति एव वदामः परमपुरुषः ब्रह्म इति वयं वदामः तर्हि तत्र यदा वयं साधनायाम् उपविश्य उपविश्य अन्तः गच्छामः ते अन्तः गच्छामः चेत् तत्र गाढतया गाढतया शान्तिः गाढतया तृप्तिः लभ्यते तादृश अनन्तस्य अनुभवः जायते तादृश अनन्तस्य यस्य आदिः अपि नास्ति अन्तः अन्तः तस्य अनुभवः अस्माकं जायते कदा जायते यदा वयं लौकिकवस्तुभ्यः लौकिकलौकिकसुखात् यदा वयं दूरं गच्छामः इत्युक्ते इत्युक्ते तत्र संसारात् तत्र वने गच्छामः अथवा पर्वते गच्छामः इति न संसारे भवामः परन्तु तेभ्यः वयं दूरं तिष्ठामः तेभ्यः अस्माकं यः सम्बन्धः अस्ति तेभ्यः वयं दूरं तिष्ठामः तदेव तत्र मुख्यविषयः अस्ति यदा वयं साधनायाम् उपविशामः तदानीं लौकिकवस्तूनामेव चिन्तनं कुर्मः चेत् न कोपि लाभः तर्हि साधनायां तत्र अनन्तस्य अनन्तस्य सम्पर्कः कथं प्राप्यते इति चेत् यदा अस्माकं मनसि तादृशी भावना भवति यत् मम केवलं ब्रह्म एव ब्रह्मविहाय मम कृते अन्यत् किमपि नास्ति इति तत्र सम्पूर्णतया शरणागतिः यदा भवति तदानीमेव अनंतस्य प्राप्तिः भवति तदर्थं तत्र लोकात् पलायनम् इति नास्ति लोके एव वयं भवामः परन्तु तथापि तेभ्यः वयं बाधितः न भवामः तेभ्यः वयं पृथक् एव लोके तिष्ठामः परन्तु यत्किमपि अस्ति जगति तत्सर्वं भ्रमणः स्वरूपम् इति एवं रीत्या दृश् इत्येवं रीत्या इति एवं रीत्या दृष्ट्वा वयम् अस्माकं व्यवहारं कुर्मः अस्माकम् अन्ते तु अनन्तेषणा अस्ति इति तु सामान्यजनः अपि अवगन्तुं शक्नोति यतोहि यदा सः रात्रौ नक्षत्राणि पश्य, पश्यति अथवा युनो पर्वतं पश्यति अथवा सागरं पश्यति तदानीं त सः गाढतया किमपि अनुभवति तस्य अन्ते परन्तु तत्तु साक्षात् अनुभवः नास्ति तत्तु इन्डैरेक्ट् एक्स्पीरियन्स् एक्स्पीरियन्स् आफ़् द इन्फैनैट् थ्रू द सेन्सस् बै लुकिङ्ग् एट् सम्थिङ्ग् दट् इस् ह्यूज् यतोहि त तेन अस्माकं अनन्तेन सह तत्र अल्पसमये एव तत्र तस्य सम्पर्कः भवति अनन्तेन सह अस्माकं सम्पर्कः भवति इति कृत्वा वयम् आनन्दम् अनुभवामः परन्तु पर्वतसमीपे गमनम् अपि च साधनायाम् उपवेशनं द्वयमपि भिन्नं भिन्नम् अस्ति यदा पर्वतसमीपे गत्वा वयं पर्वतं पश्यामः तत्तु भिन्नः अस्ति यद्यपि अनन्तेन सह सम्पर्कः अस्ति परन्तु तत्तु भिन्नः अस्ति परन्तु साधनायां यदा उपविश्य वयं साधनां कुर्मः स्पिरिच्युवल् प्राक्टिस् यदा वयं कुर्मः तत्तु भिन्नम् एव तत्र वास्तविक अवगमनं एतत् सर्वस्य अवगमनं कदा भवति इति चेत् तत्र नेत्रे निमील्य यदा वयम् एकत्र शान् यथा युनो कुत्रचित् उपविश्य साधनां वयं कुर्मः अन्ते वयं गच्छामः तदानीमेव अनन्तेन सह अस्माकं वास्तविकसम्पर्कः भवति अस्माकं सुखम् अपि आनन्दः अपि लभ्यते तर्हि अत्र गतवर्गे अस्माभिः दृष्टं यत् मनुष्याणां धर्मः ब्रह्मप्राप्तिः एव मनुष्याणां धर्मः अस्माकं धर्मः अस्ति अस्माकं मानवधर्मः ब्रह्मप्राप्तिः एव तर्हि तद् तदर्थम् अस्माभिः ज्ञातव्यं ब्रह्म विद्यते वा न वा इति अस्मा अस्माभिः ज्ञातव्यं खलु तर्हि प्रथमतया ब्रह्म विद्यते वा इति यदि ब्रह्म एव नास्ति तर्हि तदर्थं यत्नः अपि व्यर्थः एव भवति अतः ब्रह्म विद्यते वा न वा इति प्रथमं ज्ञातव्यं ब्रह्म विद्यते चेत् तर्हि तत्र भ्रमणः विषये अस्माभिः ज्ञातव्यम् इदानीं तत्र धर्मः कः एतत् सर्वम् उक्त्वा भ्रमणः एव अनन्तेष्णायाः पूर्तिः भवति एतत् सर्वम् इदानीं तत्र किञ्चित् तत्र इतोपि तत्र मनुष्यस्य व्यवहारः कथं भवति वयं कथं व्यवहारं कुर्मः वयं कथं कार्याणि कुर्मः इत्युक्ते तत्र प्रत्यक्षं वा भवति प्रत्यक्षज्ञानं वा भवति इत्युक्ते पर्सेप्षन् वा भवतु अथवा फिसिकल् आक्षन्स् वा भवतु वयं कथं कार्याणि कुर्मः इति अग्रे करपत्रे ता दत्तं तत् तस्य विषये इदानीं ता किञ्चित् किञ्चित् अग्रे धरामः तर्हि मनुष्येन प्रत्येकं कर्म यत् क्रियते तत् तस्य अथवा तस्याः शरीरकेन्द्रियैः शारीरिककेन्द्रैः एव क्रियते इति शारीरिक इन्द्रियैः शारीरिके शारीरिकेन्द्रियैः एव क्रियते इति भासते एतानि साधनानि अथवा इन्द्रियाणि दश सन्ति मनुष्येन प्रत्येकम् कर्म यत् क्रियते तत् दशभिः इन्द्रियैः एव कृतम् इति भासते परन्तु वस्तुतः तथा नास्ति एतेषाम् इन्द्रियाणाम् पृष्ठतः यदि मनः निष्क्रियं भवति तर्हि इन्द्रियाणि स्वयं किमपि का कर्म कर्तुम् तर्हि इन्द्रियाणि स्वयम् किमपि कर्तुम् न शक्नुवन्ति वस्तुतः मनः एव कार्यम् करोति दशेन्द्रियाणि च केवलम् कार्यार्थम् साधनानि सन्ति मनसि उप कर्मणः बाह्यप्रकटीकरणम् इन्द्रियाणां माध्यमेन भवति भवति. सम्यक् दृश्यते वा भगिनी अथवा लघु अस्ति किञ्चित् मम उपनेत्रं प्रायः किञ्चित् इदानीं सम्यक् दृश्यते वा हा ओके एतत् स्पष्टीकर्तुम् उदाहरणरूपेण कश्चन मनुष्यः पुस्तकस्य दर्शनम् करोति मनः पुस्तकदर्शनकार्यम् चक्षुरिन्द्रियस्य साहाय्येन करोति यदि मनः निष्क्रियम् भवति तर्हि नेत्रे पुस्तकम् दश् द्रष्टुम् न शक्नुतः यथा कश्चन पुरुषः कस्यचित् औषधस्य प्रभावेन अथवा अन्येन कारणेन मूर्छ् अस्ति सः चक्षुरिन्द्रिये उद्घाटिते सत्यपि पुस्तकं द्रष्टुम् न शक्नोति एतस्याम् एतस्याम् मूर्छावस्थायाम् नेत्रयोः नाशः न जातः तथापि मनसा सह सम्पर्काभावात् चक्षुरिन्द्रिये स्वस्य स्वाभाविकम् कार्यं कर्तुम् न शक्नुतः अतः एव औषधस्य प्रभावेन सम्पूर्णरीत्या अविकृतानि इन्द्रियाणि कार्यम् न कुर्वन्ति प्रायः यदा वयम् विचारे लीनाः भवेम तदा वयम् पुरतः विद्यमानम् व्यक्तिम् अथवा स्वकीयम् मित्रम् अभिज्ञातुम् क्लेशम् अनुभवाम एतादृशस्य एतादृशस्य अनुभवस्य एकमात्रं कारणं यद्यपि अस्माकम् चक्षुषी सम्यक् क्रमेण विस्तृते स्तः तथापि अस्माकं मनः यत् वस्तुतया कार्यं करोति तत् इन्द्रियाणाम् अर्थात् नेत्रयोः उपयोगं। मनः एव सर्वाणि कार्याणि करोति इन्द्रियाणि तु केवलम् तस्य बाह्यप्रकटीकरेण एव सहायं कुर्वन्ति बाह्यप्रकटीकरणे एव प्रकटीकरणे एव सहायं कुर्वन्ति सो mm. uh, so तत्र सोदे uh, so uh, तत्र लिखितमस्ति Uh, कार्यं uh, मनुष्य एक किमपि कार्यं uh, कर्तुम् इच्छति तत् uh, शरीरेक uh, शरीरक शरीरस्य uh, इन्द्रियैः सह एव कार्यं uh, करोति इति किन्तु तत् uh, सत्यं नास्ति मनः मनः uh, uh, uh, ma, ma, तत्र दश दशभिः इन्द्रियैः एव कार्यं कृतम् इति वयं चिन्तितुं शक्नुमः किन्तु तत् न मनः एव कार्यं मनः एव कार्यं करोति इन्द्रियैः इन्द्रियैः सह मनः कार्यं करोति यः मनसि मनः तत् मनः तत् कार्यम् उपरि मनः मनः स्था न स्थापयति सा, चेत् इन्द्रियं यथा चक्षुः दृष्ट्वा अपि न किमपि न दृश्यते यथा किञ्चित् विषये मनः लीनः भवति चेत् किमपि पुरुषः पुर पुरः पुरतः आगच्छति चेत् अपि सः न दृश्यते कारणं किम् इत्युक्ते मनः अन्यविषये लीना भवति तथैव यदा मनुष्यः मूर्छा भवति औषधिभिः वा किमपि कारणेन मूर्छावस्थाम् अस्ति चेत् किमपि न श्रूयते मनः तत्र लीना न अस्ति अतः किमपि न श्रूयते चक्षुः उद्घाटयित्वा किमपि दर्शयामि चेत् अपि सः किमपि न सः मनुष्यः मनुष्येन किमपि न दृश्यते अतः अतः वयं वक्तुं शक्नुमः मनः एव सर्वाणि कार्याणि करोति मनसः मनसः मनसा विना इन्द्रियाणि कार्यं न करोति तथैव बहु सम्यक् भगिनी बहु समीचीनं तथैव अस्ति तथैव अस्ति अत्र अत्र किञ्चित् तत्र चित्रं दृश्यते आम् इदानीं तत्र अत्र यः प्रथमः द्वितीयः भागः अस्ति तस्य विषये अग्रे अग्रे पश्यामः परन्तु अत्र पश्यन्ति चेत् अत्र इन्द्रियाणि अत्र मनुष्यः अस्ति मनुष्यस्य इन्द्रियाणि पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि सन्ति मनुष्यस्य तर्हि ज्ञानेन्द्रियाणि अत्र अस्ति चक्षुः त्वक् श्रोत्रं श्रोत्रेन्द्रियं चक्षुः न किम् श्रोत्रेन्द्रियं त्वगेन्द्रियं चक्षुरिन्द्रियं रसनेन्द्रियं ग्राणेन्द्रियं दि इयर् स्किन् ऐस् टङ्ग् एण्ड् नोस् इति एतानि इन्द्रियाणि ज्ञानेन्द्रियाणि ज्ञानस्य सम्पादनार्थम् इदानीं कर्मेन्द्रियाणि अस्ति मौत् हेण्ड्स् लेग्स् एक्स्क्रिटि आर्गन्स् रीप्रोडक्टिव् आर्गन्स् खलु पादः पाणिः पादः मुखं वायुः उपस्था इति अस्ति कर्मेन्द्रियाणि एतैः एतै एतैः इन्द्रियैः वयं कर्माणि कुर्मः ज्ञानस्य अर्जनं वा भवतु अन्यत् कार्यं वा भवतु तदर्थम् एतानि इन्द्रियाणि सन्ति मनुष्यस्य तर्हि तत्र केवलम् इन्द्रियाणि एव सन्ति चेत् वयं किमपि कर्तुं शक्नुमः वा इति चेद् न इन्द्रियाणि तु अपेक्षितानि परन्तु अस्माकं मनः एतदेव मनः अस्ति मनः अपि अस्माकम् अपेक्षितः अस्ति मनसः भागाः सन्ति इति वयम् अग्रे पश्यामः परन्तु मनः अपि अपेक्षितः यदा मनः इन्द्रियैः तत्र इन्द्रियाणि सन्ति खलु चक्षुरिन्द्रियं यदा मनः चक्षुरिन्द्रियेण संयुक्तम् अस्ति तस्य सम्पर्कः अस्ति चक्षुरिन्द्रियण सह तदानीं चक्षुः बाह्यवस्तु पश्यति बाह्य, बाह्य यत्किमपि पदार्थं पश्यति पुस्तकं वा भवतु यत्किमपि भवतु एवमेव न केवलं दर्शनम् इदानीं यदा मनः त्वगिन्द्रियेण संलग्नः संलग्नम् अस्ति त्वगिन्द्रियं पुस्तकं स्प्रष्टुं शक्नोति एवं यदा मनः जिह्वया सह तत्र किं रसनेन्द्रियेण सह रसनेन्द्रियेण सह तस्य सम्पर्कः अस्ति मनसः मनसः सम्पर्कः तत्र अस्ति तदानीं वयं कस्यचित् अन्नस्य अन्नस्य रसं वयं प्राप्तुं शक्नुमः अन्नस्य स्वादः भवति अथवा खाद्यपदार्थस्य रसः अस्माभिः लभ्यते एवं मनसः संयोगः यदा इन्द्रियेण सह भवति तदानीमेव अस्माकं ज्ञानं भवति एवमेव मनसः संयोगः अस्माकं मुखेन सह भवति चेदेव वयं सम्भाषणं कर्तुं शक्नुमः मुखेन सह सम्पर्कः अस्ति चेदेव वयं खादनं कर्तुं शक्नुमः अथवा मनसः हस्तेन सह सम्पर्कः अस्ति चेदेव किमपि कार्यं कर्तुं शक्नुमः हस्तचालनं कर्तुं शक्नुमः पादचालनं कर्तुं शक्नुमः एवं यत् यत्किमपि कार्यं भवतु मनसः संयोगः अपेक्षितः अस्ति तर्हि इदानीं तत्र प्रश्नः भवति तर्हि प्रथम करपत्रस्य प्रथमभागे वयं दृष्टवन्तः धर्मः कः मनुष्यधर्मः कः इति तर्हि ब्रह्मणः प्राप्तिः एव मनुष्यधर्मः इति सर्वम् उक्तं तत्र मनुष्ये द्वैतस्वभावः अस्ति इति अपि वयं चर्चां कृतवन्तः पशुस्वभावः मानवस्वभावः इति अनयोः मध्ये सङ्घर्षः अस्ति इत्यपि वयं दृष्टवन्तः तर्हि धर्मं प्राप्तुं वयं प्रयत्नशीलाः भवेम इति कथं तद् तत् भ्रमणः प्राप्तिः कथं भवति ब्रह्म अस्ति वा इति तस्मिन् विषये इदानीं चर्चा जायमाना अस्ति तदर्थं तत्र तादृश अवगमनार्थं प्रथमं वयं मानवस्य मनः कथं कार्यं करोति अस्माकं मनः कथं कार्यं करोति इति वयम् इदानीं वयं पश्यामः तर्हि अत्र अस्मिन् अनुच्छेदे इन्द्रियाणि कथं कार्यं कुर्वन्ति इति सुन्दरतया वर्णितमस्ति मूलतः मनुष्यस्य प्रत्येकं कर्म तेषाम् इन्द्रियैः एव भवति अस्माकं दश इन्द्रियाणि सन्ति उक्तं तानि च कर्माणि कुर्वन्ति तदा तदा तथापि यद्यपि इन्द्रियाणि कार्यं कुर्वन्ति तथापि एतानि इन्द्रियाणि एतेषाम् इन्द्रियाणां स्वामी तु मनः एव मनस्य मनसः नियन्त्रणे एतेषा एतानि इन्द्रियाणि कार्यं कुर्वन्ति यदा मनसः नियन्त्रणं नास्ति कण्ट्रोल् नास्ति द मैण्ड् डस् नाट् कण्ट्रोल् द इन्द्रियस् ओर् इट् डस् नाट् कान्टाक्ट् द इन्द्रियास् देन् यु कान् डु एनि वर्क् तदा यदा वयं पुस्तकं पठामः कदाचित् अस्माकं सर्वेषाम् अनुभवः अस्ति पुस्तकम् अस्माकं पुरतः अस्ति एकः एव एका एव पुनः पुनः वयं पठामः तथापि तस्य अर्थबोधः न भवति यतोहि मनः तत्र नास्ति मनः अन्यत्र एव अस्ति अन्यस्मिन् विषये चिन्तनम् अस्ति मनसि मनसि इति कृत्वा यत्किमपि पुरतः अस्ति तस्य बोधः न भवति अथवा अस्माकं पुरतः कश्चन पुरुषः अस्ति सः किमपि वदन् अस्ति वयं तत्र तं पुरुषं वयं पश्यामः पत तथापि तेन पुरुषेण किम् इति वयं न अवगन्तुं शक्नुमः यतोहि मनः अन्यत्र एव अस्ति इति अस्माकं सर्वेषाम् अनुभवः अस्ति यदि अन्यविचारे मनः निरतमस्ति मग्नम् अस्ति तदानीं पुस्तकं पुर पुस्तकं पुरतः अस्ति चेदपि पुस्तके लिखितं तत् किमपि न अवगम्यते अथवा वयं वर्गे तथापि किमपि न अवगच्छामः यतोहि मनः अन्यत्र एव अस्ति तर्हि अत्र अस्माकं दश इन्द्रियाणि सन्ति पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि तर्हि तत्र ज्ञानेन्द्रियेषु नेत्रं ने नेत्राणि श्रोत्रम् नासिका ग्राणं ग्राणं जिह्वा रसना त्वग् त्वगेन्द्रियम् इति एतानि भवन्ति ज्ञानेन्द्रिय इति कर्मेन्द्रियाणि तु वाक् पाणि पादव पायुः उत्सर्जनक्रिया एक्सक्रीशन पायुः उपस्था प्रजननक्रिया यत्र रीप्रडक्षन् उपस्था इति एतानि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि सूचनां गृह्णाति यदा तस्य सम्पर्कः मनसा सह भवति तदानीं तत्र बाह्यसूचनां गृह्णाति ज्ञानेन्द्रियाणि एवं कर्मेन्द्रियाणि यदा मनसा कर्मेन्द्रियाणि आज्ञापितानि इट् देर् आर्डर्ड् बै द मैण्ड् कर्मेन्द्रियाणि कर्माणि कुर्वन्ति अतः वयम् अवगन्तुं शक्नुमः सर्वेषाम् इन्द्रियाणां पृष्ठतः मनः अस्ति एव मनः नास्ति चेत् इन्द्रियाणां कार्यं न भवति कदाचित् वयम् अनुभवम् एवम् अनुभ एवमपि अनुभवामः कश्चन बालकः बहु गभीरतया क्रीडन् अस्ति क्रीडे सः क्रीडायां सः प्रवृत्तः अस्ति तदानीं माता तम् आह्वयति रामः राम अत्र आगच्छ आगच्छ इति परन्तु सः न शृणोति किमर्थं न शृणोति यतो हि सः क्रीडायां मग्नः अस्ति तस्य पुरतः किमपि अस्ति तत्र मग्नः अस्ति अतः मातृभिः किम् इति सः न शृणोति इति तु सामान्यविषयः अस्ति यद्यपि तस्य तस्य श्रोत्रेन्द्रियं सम्यक्तया कार्यं करोति तथापि मनः तत्र नास्ति मनः अन्यत्र एव अस्ति इति कृत्वा सः न शृणोति अत्र अन्यदपि अवगन्तव्यं यत् मनः एकस्मिन् समये एकमेव कार्यं कर्तुं शक्नोति इत्युक्ते यद्यपि वयं वदामः मैण्ड् केन् मल्टिटास्क् आक्चुलि मैण्ड् केनाट् मल्टिटास्क् केन् ओ वन् आक्टिविटि अट् अ टैम् बट् इट् इस् वेरि वेरि क्विक् बहु शीघ्रं कार्यं करोति अतः एकं स्वीकृत्य झटिति अन्यत् अपि स्वीकर्तुं शक्नोति इति तादृशसामर्थ्यं वर्तते यदा अहं पश्यामि तदानीम् अहं न परन्तु एकस्मिन् क्षणे अहं पश्यामि अग्रिमक्षणे अहं शृणोमि अथवा झटिति अहं पश्यामि तद् यदा तत्र मम सम्भाषणम् अन्यः पुरुषः अस्ति तेन सह मम सम्भाषणं जायते चेत् अहं तं पश्यामि अपि च शृणोमि इत्युक्ते अत्र कार्यद्वयम् अस्ति वा पश्यामि शृणोमि इति कार्यद्वयम् अस्ति वा इति चेत् अत्र एक प्रथमतया यदि अहं पश्यामि चेत् तदानीम् अहं न शृणोमि पश्यामि तदनं तत् तदग्रिम नेक्स्ट् सेकेण्ड् ऐ हियर् इति तत्र मल्टिटास्किङ्ग् नास्ति तर्हि मनः एकमेव न भवति किं पश्य शृणोति न भवति न भवति एकमेव कार्यं कर्तुं शक्नोति इत्युक्ते बहु झटिति कार्यं करोति इति कृत्वा वयं किं चिन्तयामः कण्टिन्युस् अस्ति इति चिन्तयामः अहं पश्यन्नपि पश्यन् अहं पश्यन्ती अस्मि खादन्ती अस्मि इति तथा अनुभवामः परन्तु तथा नास्ति वस्तुतः मनः एकमेव कार्यं कर्तुं शक्नोति परन्तु बहु शीघ्रमस्ति इति कृत्वा वयं ज्ञातुं न शक्नुमः वयं चिन्तयामः तत्र ओ कार्यद्वयं कार्यत्रयमहं समानसमये करोमि इति वयम् अनुभवामः परन्तु तथा नास्ति वस्तुतः मनः एकस्मिन् समये एकमेव सूचनास्रोतं स्तोत्रं स्वीकृत्य कार्यं कर्तुं स्रोतं स्वीकृत्य कार्यं कर्तुं शक्नोति इन्द्रियाणि सूचनां ददाति यदि मनः न स्वीकरोति चेत् तदानीं तत्र कार्यं न भवति यदि अहं पश्या पश्यामि परन्तु अन्तः न गच्छति मम पुरतः माता तिष्ठति इति अन्तः न गच्छति यदा मनः तत्र संलग्नं नास्ति तर्हि इत्युक्ते प्रत्येकस्मिन् प्रकरणे यः कोऽपि प्रसङ्गः भवतु यः यः कोऽपि विषयः भवतु यदा मनः लग्नं नास्ति तदानीं कोऽपि का तत्र किमपि कार्यं न भवति किमपि कार्यं कर्तुं न शक्नो शक्नुमः नेत्राणि तु सूचनां ददाति परन्तु तत्र अन्ततो गत्वा मनः एव पश्यति नेत्राणि न पश्यन्ति मनः एव पश्यन्ति कथं मनः पश्यति इति वयम् अग्रे पश्यामः तत्र एवं तत्र श्रोत्रेन्द्रियाणि सूचनां शब्दसूचनां ददा किं श्रोत्रेन्द्रियाणि ददति सूचनां ददति परन्तु मनः एव शृणोति मनः एव पश्यति मनः एव शृणोति मनः एव रसास्वादं करोति इति कृत्वा तत्र मनः इस् द सेण्ट्रल् मेकानिज़म् द प्रासेसस् द प्रासेसस् एण्ड् डैरेक्ट् आल् सेन्सिरिस्पान्सेस् सो द मैण्ड् इस् द सेण्ट्रल् मेकानिसम् सो मनः एव मुख्यं तन्त्रमस्ति मन मनसा एव सर्वेषाम् इन्द्र इन्द्रियाणां निर्देशः भवति नियन्त्रणं भवति इट् डैरेक्ट्स् आल् दि इन्द्रियास् इट् मेनेजर् आल् दि इन्द्रियास् यदि मनसः सम्पर्कः नास्ति चेत् तत्र कस्यापि बोधः न भवति इति कृत्वा यदा तत्र मूर्छाव्यां स्मः तदानीं तत्र अस्माकं किमपि कार्यं न भवति यतोहि मनः तत्र संलग्नं नास्ति अथवा औषधप्रभावेन अपि एवं रीत्या भवति चेत् तदानीम् अस्माकं ज्ञानं न भवति कार्यं किमपि न भवति इति तत्र सर्वत्र यद्यपि इन्द्रियाणि सन्ति तथापि तस्य पृष्ठतः मनः अस्ति मनसः प्राधान्यं वर्तते इति अत्र अस्मिन् परिचये वक्तुम् इच्छामः इत्युक्ते यद्यपि सामान्यतया वयम् अवगच्छामः वयं चिन्तया चिन्तयामः इन्द्रियेण पश्यामि इति परन्तु वस्तुतः तस्य पृष्ठतः मनः वर्तते इति अवगन्तव्यं तर्हि मनः कः मनः इत्युक्ते किम् इति अग्रिमपरिचये दत्तमस्ति तत्र वयं गच्छामः अस्तु किं सरलभग्नि पठितुमिच्छति वा यदि क्रियते भगिनी क्षम्यतां भगिनी तत्र किमपि जातं वदतु यदि मनः एवं कार्यं करोति तर्हि एतेषाम् इन्द्रियाणां माध्यमेन कथं कार्यं करोति इति अस्माभिः द्रष्टव्यं भवति उदाहरणरूपेण पुस्तकदर्शनम् एकं कार्यम् अस्ति यत् मनः इन्द्रियद्वारा करोति पुस्तकस्य दर्शनसमये वस्तुतः किं भवति इति चेत् मनः चक्षुरिन्द्रियस्य साहाय्येन पुस्तकमिति वस्तुनः आकृतिं धरति मनसा पुस्तकस्य या आकृतिः गृहीता सा नेत्रान्तस्थितचित्रपत्रस्य उपरि अङ्कितायाः पुस्तकस्य प्रतिछायाः अपेक्षा भिन्ना येत्रो नि मन पुस्तकस्य च आकार धर्म शक्नो परंतु नेत्रे तो मनसा विना कार्य न अर्त अतः प्रत्यक्षे मन पुस्तक आकार धरती मनस युस्त धरती तस्य अंशस्य नामः नाम, नाम चित्तं वा मन द्रव्य मनद्रव्यम् इति उच्यते किन्तु यद्यपि चित्तम् पुस्तकरूपं गृह्णाति तथापि चित्तव्यक्ति व्यतिरक्त चित्तव्यक्तिरक्त किमपि अवश्यम् एव स्यात् यत् दर्शनकार्यं करोति मनसः यः अंश दर्शनस्य कार्यं करोति तस्य नाम अहं तत्त्वम् वा अहम् इति उच्यते परन्तु अहम् इत्यस्य अस्ति अस्ति विना अहं किमपि द्रष्टुं न शक्नोति अतः मनसः अन्य अतिरिक्त अंशः स्यात् यः चित्तम् अहं तत्त्वम् च इत्याभ्यां भिन्नः स्यात् मनसः अंशः य अहम् अस्ति इति भावनां ददाति सः महत्तत्त्वम् बुद्धितत्वम् इति नाम्ना ज्ञायते अस्तित्वस्य भावनाम् अथवा आत्मनः ज्ञानं विना कापि क्रिया न सम्भवति अस्ति तस्य भावना अथवा आत्मनः ज्ञानं महत्तत्त्वात् अथवा बुद्धितत्वात् उत्पद्यते चित्तम् अहं तत्त्वम् महत्तत्त्वं च मिलित्वा एषां त्रयाणाम् अंशानां सामूहिक नाम एव वा इती किन्तु एते त्रय अंतकरण्य किय मनस भागा मनस भा्य निर्देशिता कार्य क्षमता एव मनसा पुस्तक दर्शन क्रिया, क्रिया अस्याम से रूप प्रक्रिया त्र मनसी रूपित जातम इति वक्तुं शक्यते भगिनी यच्चित्रं भवती दृष्टवती इति दृष्ट्वा वदामिति साधु भवति इदानीं प्रथमम् इति आसीत् मनः तस्य भागत्रयः सन्ति एक वयं महत्तत्त्वं वदामः वा बुद्धितत्त्वं तदनन्तरम् अहं तत्त्वमस्ति तद यत् नीलवर्णी अस्ति तृतीयमस्ति चित्रं यत् इन्द्रियाणि सम्पर्कं करोति तत् भागः ओके okay, त्रयभागः अस्ति इदानीम् इन्द्रियाणि uh, कियते uh, भगिनी सेन्स् आर् गर्स् आर् डिफ्रेण्ट् फ्रोम् uh, इन्द्रियाणि साधु सेन्स् आर्गन्स् डिफ़्रेण्ट् फ्रम् द इन्द्रियाणि परन्तु तत्र अस्माकम् अवगमनार्थम् इयर् नोस् इति तथा उक्तमस्ति परन्तु तत्र चक्षुरिन्द्रियम् अत्र चक्षुरिन्द्रियं ज्ञानेन्द्रियम् इति तदर्थं तदर्थमेव मया तत्र उक्तं चक्षुरिन्द्रियं ज्ञानेन्द्रियम् इति तत्र इयर् स्किन् ऐस् नोस् इति अवगमनार्थं तत्र लिखितमासीत् तावदेव यथा पुस्तक पूर्वं वयं यदि इन्द्रियाणि मनस सम्पर्कं करोति मनः इन्द्रियाणि इन् इं, इन्द्रिये इन्द्रियैः सह सम्पर्कं करोति तथा हि एव ज्ञातं भवति कि यथा चक्षुरिन्द्रियस्य अहं किं किं पश्यामि देम अहं किं ज्ञातुं शक्नोमि वा स्वादम् इति भवति तङ् इति जिह्वा जिह्वा इति यत् अस्ति तस्य इन्द्रियाणि जिह्वा इन्द्रियाणि किम् अस्ति रसनेन्द्रियं रसनेन्द्रियमिति वा कर्णैः यत् श्रूत्रमिन्द्रियाणि सन्ति ते ये इन्द्रियाणि यदि सम्पर्कं करोति प्रथमं यत् पुस्तकमस्ति इति वयं वस्तु वदामः आब्जेक्ट् इति अस्ति तस्मात् यत् सेन्स् आर्गन् तस्य सम्पर्कः भवति सेन्स् आर्गन्तः इति आगच्छति तन्मात्रा यथा भग्नि इति तन्मात्रायाः विषये इदानीं वदतु अग्रिमपरिचयते अस्ति इदानीं तद् इदानीं तद् केवलम् अत्र मनसः विषये तन्मात्रा अनन्तरम् अग्रिमपरिचते इन्द्रियाणि इति सम्पर्कम् आगच्छति वस्तुन सह वस्तुना इदानीं यदि इन्द्रियाणि सम्पर्क भवति तत् सम्पर्क यदि मनसि मनसा भवति मनसा यत् भागम् अस्ति यत्र इन्द्रियाणि सम्पर्कं करोति तत्र वस्तुः आकारः आगच्छति वस्तु यत् वस्तु आकारः यदि आगच्छति तत्र वयं वदामः चित्तं चित् अस्ति मनस तत् भागः अस्ति चित्रं यदा चित् यदि वस्तु आकारः आगच्छति तत्र चित् स्वत न ज्ञातुं शक्नोति इति किम् अस्ति आकारः कस्य अस्ति अहं जाना जानामि न जानामि इति मनस कापि शक्ति नास्ति यदा अहं तत्त्व यत् अस्ति यत् अहम् आय् ईगो वा इति वदामः आङ्ग्लभाषायां यत् अहं तत्त्व तस्य सम्पर्कं करोति यदि अहं तत्त्व आगच्छति तदापि इति जानाति किं uh, मनसि किम् uh, आकारः आग् uh, आगत uh, आगत्य अहं किं करोमि इति बुद्धि बुद्ध्या इति सम्पर्कं भवति यदि बुद्ध्या इति सम्पर्कं भवति किमस्ति बुद्धिः किमस्ति बुद्ध्या इति बुद्धिः इत्युक्ते किम् अत्र बुद्धिः इति परीक्षणं करोति इति अहं जानामि न जानामि पूर्वं किम् अस्ति इति साधु अस्ति न बुद्धिः बुद्धिः इत्युक्ते अत्र बुद्धिरत्वम् इति वदति बुद्धितत्त्वं वा महत्तत्त्वं भवती उक्तवती साधुत्वं महत्तत्त्वम् इति वदतु बुद्धिः इति महत्तत्त्वम् अस्तु महत्तत्त्वम् इति सम्पर्कं करोति इति यदि तत् अहं तत्त्वं जानामि सः जा अहं तत्त्व वदति अहं जानामि जानाति चित्रं तत् तदनन्तरं मन कर्मेन्द्रियै सम्पर्कं करोति यदि कर्मेन्द्रियैः सम्पर्कं करोति तदानीम् इति पुस्तकं उत्थायति वा पठति इति किमपि करोति इति केवलं वयं पश्यामः इन्द्रियैः कार्यं करो किन्तु इति सर्वम् <imitati> इति झटिति भवति इति न जानीमः च इति तस्य प्रक्रिया काम्प्लिकेटेड् अस्ति इति साधु आम् आम् आं भगिनि आम् तत्र समीचीनं समीचीनतया उक्तवती इत्युक्ते तत्र यथा पूर्वम् उक्तं तत्र किमपि कार्यं करणीयं चेत् तत्र इन्द्रियाणि अपे अपेक्षितानि अपे मनः अपि अपेक्षितं मनः अपि अपेक्षितम् इति प्रथमतया अत्र उक्तमस्ति यदि इदानीम् अहं पुस्तकं द्रष्टुम् इच्छामि मम पुरतः एक एकं पुस्तकम् अस्ति अहं पुस्तकं, पुस्तकं द्रष्टुम् इच्छामि तदानीं वयं किं कुर्मः इति अत्र क्षणं हा तर्हि तत्र स सर्वं यत्किमपि क्रियते तत्तु इन्द्रियस्य इन्द्रियस्य माध्येन एव तत्र सम्पर्कः भवति बाह्यवस्तुना वस्तुना सह इन्द्रियेण सह सम्पर्कः भवति इदानीं पुस्तकदर्शनमिति कार्यमस्ति चेत् तत्तु तत्र तु मनः अपि अपेक्षितमस्ति इन्द्रियमपि अपेक्षितमस्ति तत्र चक्षुरिन्द्रियं चक्षुरिन्द्रियं पुस्तक पुस्तकस्य दर्शने सहायं करोति तर्हि चक्षुरिन्द्रियस्य पुस्तकेन सह तत्र पुस्तकस्य दर्शनं भवति तदानीं तत्र इत्युक्ते मनसः तत्र मनसः यः भागः अस्ति चित्तम् इति भागः सः भागः पुस्तकस्य आकृतिं स्वीकरोति द मैन् हे त्री पार्ट्स् चित्तम् अहं तत्त्वम् एण्ड् महत्तत्त्वं वेन् विक्चुलि सीयिङ्ग् अ बुक् द चित्ता वित् द हेल्प् आफ् द इन्द्रियस् टेक् दि शेप् आफ् दट् बुक् सो द चित्ता विल् टेक् द इमेज् आफ् दट् बुक् chittam pustakasya akritim dharati iteks the shape of the book with the help of the eyes with the help of the chakshur indriyam with the help of the indriyas the chitta will take the shape of the book tarhi tatra itute dadra the image that is formed in the retina of the eyes that is different from the image that is there in the chittam because the image that is there in the chittam it will it can be the, we can we can have an image in our chittam even when our eyes are closed right so even if you are imagining the book in inside our mind then the then also the chitta will take the shape of the book tarhi tatra yat chak the retina the, the image that is formed in the retina retina when you look at the book that image is different from the image that is there in the mind tatra spashtikartum ichami tarhi yada pustakam pashyama tatra indriya sya dwara cittam pustakasya akritim sikaroti takes the shape of the book तदानीं तत्र किं भवति इति चेत् तदानीम् अहं तत्त्वम् इति यदस्ति तद् पुस्तकं पश्यति तत् पुस्तकं पश्यति तर्हि अहं तत्त्वम् आं तत्त्वस्य निर्देशानुसारं चित्तम् इन्द्रियद्वारा पुस्तकस्य आकृतिं धरति तर्हि अहं तत्त्वं नास्ति चित्तं पुस्तकस्य आकृतिं न धरति अतः अहं तत्त्वं चित्तस्य साक्षीसत्ता अस्ति अथवा चित्तस्य निर्देशम् अहं तत्त्वमेव करोति खलु तर्हि तदानीमेव चित्तं पुस्तकस्य रूपं स्वीकरोति तर्हि तत्र चित्तं व्यतिरिक्तम् अन्यत् किमपि अस्ति दर्शनकार्ये तत् अस्ति अहं तत्त्वं तत्र मनसः भागः अस्ति अहं तत्त्वम् अहम् इति वयं वदामः अहङ्कारः इति अपि वयं वदामः अहं तत्त्वम् इति अस्ति अहं तत्त्वं विना तर चित्तं किमपि कर्तुं न शक्नोति इन्द्रियाणि अपि किं किमपि कर्तुं न शक्नुवन्ति तर्हि अहं तत्त्वमस्ति तर्हि तत्र द्वितीयः अंशः अस्ति अहं तत्त्वं तर्हि तृतीयः अंशः अपि अस्ति महत्तत्त्वम् इति यावत्पर्यन्तम् अहम् अस्मि इति अनुभवः नास्ति यू हाव् uh, un दीलिङ्ग् दट् ऐ एक्सिस्ट् ऐ नो ऐ एक्सिस्ट् इति अनुभवः यावत्पर्यन्तं नास्ति तावत्पर्यन्तम् अहं पुस्तकस्य दर्शनं कर्तुं न इत्युक्ते महत्तत्वेन एव तादृश अनुभवः भवति अहम् अस्मि अहम् अस्मि अहमस्मि इति यः अनुभवः अस्ति सः अनुभवः अहं तत्त्वेन भवति तर्हि अहं तत्वं विना क्षम्यताम् अहमस्मि इति अनुभवः महत्तत्त्वेन भवति महत्तत्त्वं विना अहं तत्त्वं किमपि न कर्तुं शक्नोति अहं तत्वं विना चित्तं किमपि न कर्तुं शक्नोति अतः एतानि एते त्रयः भागाः अपि मिलित्वा कार्यं कुर्वन्ति एकं विना अन्यत् किमपि कार्यं कर्तुं न शक्नोति तर्हि तत्र महत्तत्त्वेन अहम् अस् अस्मि इति अनुभवः भवति यदा अहमस्मि इति अनुभवः भवति इदानीम् अहं तत्वं तत्र अहं तत्वं डिसैड्स् सः अहं तत्त्वं निर्णयं करोति इदानीम् अहं पुस्तकं पश्यामि इति निर्णयं करोति यदा पुस्तकं पश्यामि इति निर्णयं करोति तदानीम् अहं तत्त्वं चित्तं चित्तस्य आज्ञां करोति चित्तम् आज्ञापयति भवान् इदानीं तत्र चित्तं गत्वा तत्र पुस्तकं पश्यतु इति तदानीं इन्द्रियद्वारा पुस्तकं पश्यति पुस्तकस्य चित्तं पुस्तकस्य आकृतिं धरति चित्तं पुस्तकं न पश्यति चित्तं पुस्तकं न चित्तं केवलम् इट् इस् जस्ट् लैक् अ मूवी स्क्रीन् चित्तम् इस् लैक् अ मूवी स्क्रीन् इट् टेक्स् द इमेज् आफ़् दि आब्जेक्ट् औट्सैड् सो इफ् इट् इस् अ बुक् दि टेक्स् द शेप् आफ़् द बुक् इफ़् इट् इस् अौण्ड् इफ् यु आर् हियरिङ्ग् संथिङ्ग् देन् दि श्रोत्रेन्द्रियं with the Sotriyendriyam, Chitta will, will take the shape of the sound or it will just become the sound. It just becomes whatever is our external uh, object. If it is a book, it becomes a book. If it is sound, it becomes a sound. If it is a taste, a rasam, it becomes a rasa. Right? So whatever the object of perception, it just becomes like that. So when Chitta is like the movie screen and who is that entity which sees the Chitta? It is the Aham Tattwa. Aham Tattwa is the one that is seeing the Chitta. So it is seeing the the book that is there on the chitta it is just like a movie screen just like you are watching a movie so you you are watching a movie right so that that person who is watching the movie is the aham tatva and uh, the screen is the chitta chitta is the screen so whatever the external object that object is on the chitta and the aham tatva is watching that screen and this is all not possible without the mahat tatva mahat tatva gives the feeling of i exist aham asmi iti भावं ददाति इति एवम रीत्या तत्र पुस्तकदर्शनं भवति तर्हि अस्यां प्रक्रियायां तन्मात्रं तन्मात्राणि इत्यपि आयाति तद् तस्य विषये इदानीम् अहं वदामि अग्रिमपरिच्छदे अस्ति तर्हि अत्र इत्युक्ते मनः एव पश्यति इत्युक्ते मनः एव पश्यति अतः एव यदा मूर्छितः भवामः तदानीं नेत्रानी सम्यक् सन्ति चेदपि वयं पुस्तकं द्रष्टुं न शक्नुमः किमपि न दृश्यते वस्तुतः मनः एव पश्यति तत् कथं पश्यति इति कथं पुस्तकं पश्यति इति चेत् तत्र वस्तुतः पुस्तकात् प्रकाशः प्रतिबिम्बितः भवति पुस्तकात् प्रकाशः प्रतिबिम्बितः भवति सः प्रकाशः नेत्रे आगच्छति रैट् द लैट् फ्रोम् द बुक् गेट्स् रिफ्लेक्टेड् आन् दि ऐस् इट् इट् फाल्स् आन् द रेटिना तर्हि नेत्रं तत्र मस्तिष्काय सूचनां ददाति नेत्रमस्तिष्काय सूचनां ददाति तत्र मनः अपि तत् तादृशीं सूचनां प्राप्नोति मनः अपि सूचनां प्राप्नोति तर्हि मनः अपि च मस्तिष्कं समानं नास्ति द ब्रेन् एण्ड् द मैण्ड् आर् टु डिफ्रेण्ट् थिङ्ग्स् मनः मुख्यतया मस्तिष्के एव स्थित स्थितं भवति द मैण्ड् इस् प्रैमरी लोकेटेड् इन् द ब्रेन् विच् इस् द प्रैमरी सीट् आफ् द मैण्ड् मनसः प्राथमिकं स्थानम् अस्ति मस्तिष्कं रैट् तर्हि यदा तत्र नेत्राणि निमिल् निमिलितानि सन्ति तदानीं निमीलितानि सन्ति चेदपि मनः स्वयं कल्पनाद्वारा पुस्तकं द्रष्टुं शक्नोति रैट् इवन् इ् दैस् आर् क्लोस्ड् वि केन् सी द बुक् विद् वन् डस् नाट् हाव् टु सी अ बुक् ओन्ली यूसिङ्ग् वन्स् ऐ रैट् सो यदा वयं बाह्य बाह्यवस्तु पुस्तकरूपेण वयं द्रष्टुमिच्छामः इदानीं पुस्तकम् उत्पीठिकायाम् अस्ति तर्हि तदानीं तादृशपुस्तकस्य दर्शनार्थं चक्षोः अपेक्षिता अपेक्षा वर्तते चक्षुसा चक्षुषा एव दर्शनं भवति तर्हि यदा वयं बाह्यवस्तु पश्यामः तदानीं पुनः अस्माकं मनसि तस्य स्मरणं भवितुमर्हति रैट् इफ् यु लुक् अट् एनी आब्जेक्ट् देन् ईवन् इफ् यु क्लोज् अवर् ऐस् वी केन् रीक्रियेट् द बुक् फ्रम् मेमरि मीन् अवर् मैण्ड् रैट् So whether we see, see it using our eyes or from memory, there is something we are seeing that is not directly done by the eyes. So uh, the evidence for that is that we can see even when the eyes are closed. Iti pe kevalam indiriyana eva vayam pasya maha manaha eva nasi iti bambyam na shakno maha. Memory is mm -hmm. provided by the mahatatwa? Memory is actually by the aham tattwa. Aham tattwa. अहं तत्त्व महत्तत्व किमपि न करोति किमपि न करोति केवलम् अहम् अस्मि इति भावः एव महत्तत्त्वं किमपि कार्यं न करोति महत्तत्त्वस्य कार्यं किमपि नास्ति केवलम् अहम् अस्मि इति भावः एव अस्ति महत्तत्त्वे अहं तत्वमेव सर्वं करोति सर्वस्य नियन्त्रणं करोति किं करोमि इत्यपि निर्णयं करोति सर्वम् अहं तत्वमेव करोति तर्हि इत्युक्ते तत्र इन्द्रियैः एव सर्वं क्रियते सर्वं सर्वाणि कार्याणि क्रियन्ते इति नास्ति यतोहि इन्द्रियाणि न सन्ति चेदपि यदि पूर्वं पुस्तकस्य दर्शनं जातं तदानीं स्मरणरूपेण अपि वयं पुनः पुस्तकस्य कल्पनां कर्तुं शक्नुमः खलु मनसा अतः एव मनसा वयम् अन्यत्र झटिति वयं गन्तुं शक्नुमः इदानीम् अहं भारते अस्मि इदानीं झटिति अहं अमेरिकादेशे गन्तुं शक्नोमि अथवा अहम् अमेरिकादेशे अस्मि झटिति अहं भारतदेशे आगन्तुं शक्नोमि मनसा खलु इत्युक्ते तत्र इन्द्रियस्य अपेक्षा वर्तते इति कृत्वा वयम् अवगन्तुं शक्नुमः इन्द्रियाणाम् अतिरिक्तं किमपि अस्ति तदस्ति मनः अतः एव नेत्रे निमिलिते अपि वयं द्रष्टुं शक्नुमः तर्हि यदि पुस्तकम् उत्पीठिकायाम् अस्ति तद्वयं पश्यामः तर्हि तत्र नेत्रस्य नेत्राणाम् आवश्यकता वर्तते उत्पीठिकायां यत् पुस्तकमस्ति तद्दृष्ट्वा तदनन्तरं नेत्रं निमील्यपि वयं पुस्तकं मनसि द्रष्टुं स्मृतिद्वारा द्रष्टुं शक्नुमः तद् तदर्थं तत्र प्रमाणमस्ति मनः अस्ति यतोहि नेत्रे निमिलिते अपि वयं द्रष्टुं इति कृत्वा मनः अस्ति इति वयम् तर्हि पुस्तकस्य रूपं यत् मनसः एकः भागं गृह्णाति सः अस्ति चित्तम् इति उक्तं तस्य नामकरणमस्ति चित्तं तद् तदेव तद् सः चित्तम् इति भागः एव तत्र पुस्तकस्य रूपं गृह्णाति शब्दस्य शब्दाकारं गृह्णाति स्वादस्य आकारं गृह्णाति तत्र त्वगिन्द्रियस्य त्वक् त्वचः आकारं गृह्णाति स्पर्श स्पर्शाकारं गृह्णाति इति सर्वाणि इन्द्रियाणि चित्ताय सूचनां ददाति सर्वाणि इन्द्रियाणि चित्ताय सूचनां ददाति त चित्ता द इन्फ़र्मेशन् फ्रोम् द इन्द्रिया चित्तं सर्वेषां वस्तूनां स्वरूपं गृह्णाति इट् जस्ट् टेक्स् द फार्म् आफ़् वाटेर् दि आब्जेक्ट् इट् इस् वेदर् इट् इस् सौण्ड् ओर् इटेस् आर् वाटेवर् इट् इस् तर्हि तत्र यदा चित्तं पुस्तकस्य आकारं गृह्णाति तदानीम् अहं तत्त्वं पश्यति अहं तत्वं तदानीं पश्यति अहं तत्त्वं पुस्तकस्य मानसिकप्रतिबिम्बं चित्ते पश्यति चित्ता इस् इस् द मूवी स्क्रीन् रैट् तत्र रसः गन्धः स्पर्शः सृष्टिः सर्वं तत्र चित्र तत्र तत्र प्रोजेक्टर् तत्र किं स्क्रीन् मध्ये प्रदर्शितमस्ति इट्स् लैक् त्री डैमेन्शनल् स्क्रीन् सो इट् इस् प्रोजेक्टिङ्ग् द टेस्ट् द स्मेल् सौण्ड् सैट् टच् एव्रिथिङ्ग् अहं तत्त्वं सर्वं तत्र चित्ते एव पश्यति अतः अहं तत्त्वं चित्ते यदस्ति तस्य अनुभवं प्राप्नोति इदानीं तत्र अहं तत्त्व इस् काल्ड् एस् दुवर् ऐ अ इट् गिव्स् डैरेक्षन् टु दर्मेन्द्रियास् एण्ड् एक्स्पीरियन्स् द पर्सेप्शन्स् आफ़् द्र ज्ञानेन्द्रियास् वित् द हेल्प् आफ़् दि चित्ता सो अहं तत्त्व इस् दुवर् ऐ अहं कर्ता कर्ता इति अनुभवः तदनन्तरम् अहं तत्त्वं कथं कार्यं कर्तुं शक्नोति इति चेत् तत्र अन्यत् किमपि अपेक्षितं तदानीमेव अहं तत्वं कार्यं कर्तुं शक्नोति तदानीं तत्र भागः अस्ति मनसः अन्यः भागः अस्ति अहम् अस्मि इति भावः तादृशभावः महत्तत्वेन दीयते अहम् अस्मि इति आत्मबोधः महत्तत्त्वेन दीयते यदा इत्युक्ते तत्र यदा अहं किमपि करोमि तदानीम् अहम् अस्मि इति, इति भावः अस्ति अपि अहं जानामि अहम् अस्मि इति एतादृश अहम् अस्मि इति भावः मनुष्याणाम् अस्ति यतोहि वि अस्माकं विकसितमहत्तत्वं वर्तते विकसितमहत्त्वं वर्तते इति कारणेन अस्माकम् अहम् अस्मि इति भावः अस्ति तर्हि अतः एव वयम् अस्माकं कर्मणां कर्तारः भवामः स् आफ़् अर् एक्षन् यतोहि अस्माकं विकसितमहत्तत्वं वर्तते पशुषु एतादृशविकसितमहत्तत्वं न वर्तते अतः ते अहम् अस्मि अहमेव कर्ता इति तादृश न प्राप्नुवन्ति ते कर्माणि कुर्वन्ति परन्तु ते ते न प्राप्नुवन्ति यत् अस्मि इति यदा तत्र वानरः इव अत्यन्त पशुषु विकसितः विकसितः पशुः अस्ति सः तु दर्पणे दृष्ट्वा स्वं अभि अभिजानाति रेकग्नैज़् दंकी एन् इट् लुक्स् इन् दि मिरर् इट् रेकग्नैजेस् इट् सेल्फ् बिकास् तस्य तु इतोपि विकसितमहत्तत्वं वर्तते परन्तु अन्येषां पशूनां तादृशविकसितमहत्तत्वं नास्ति अतः तेषां स्व अस्तित्वस्य ज्ञानं नास्ति अतः ते स्वकर्मणां कर्तारः न भवन्ति पशवः कर्म कुर्वन्ति किरन् किन्तु ते कर्तारः न भवन्ति तेषां सर्वकार्यं तेषां सर्वकार्यं प्रकृति प्रकृतेः मार्गदर्शनेन एव भवति म कर्तारः भूत्वा स्वकर्मफलम् अनुभवन्ति चित्तम् अहं तत्त्वम् महत्तत्त्वम् इति तत्र एतेषां त्रयाणां मिलित्वा मनः मनः अथवा अन्तःकरणम् इति नामकरणम् अस्ति एतेन एव तत्र तत्र तत्र मनसः विषये ज्ञात्वा शरीरस्य रचनाविषये वयम् अस्माकं स्पष्टः विचारः भवति अत्र अस्मिन् अस्मिन् चित्रे यदा वयं पश्यामः तर्हि अन्तःकरणम् इति महत्तत्त्वं द ऐ फीलिङ्ग् आर् नालेज् द सेल्फ़् अहं तत्त्वम् इस् द डुवर् ऐ And chitta is the movie screen or is the dun eye so atra kramah katam iti chet if i want to see a book right aham tattva desires i want to see a book then it gives instructions to the chitta the chitta comes in contact with the indriyas it comes in contact with the chakshu indriya because i want to see the book comes in contact with the chakshu indriya then what happens is that the chakshu indriya it is instead of talk about the tanmatras now i'll just tell just like tell one sentence over here the the the chakshur indriya receives the tanmatras from the book the tanmatras from the book so the tanmatras is a wave is a wave which radiates from the uh, it's a vibration or a wave which radiates from the book that vibration or wave the uh, chakshur indriya uh, obtains that uh, wave and it passes that tanmatra to the chitta right the chitta receives the tanmatra and takes the shape of the book after it receives the tanmatra roopa tanmatra so it takes the shape of the book there are five tanmatras roopa tanmatra shabda tanmatra rasa tanmatra ah uh, gandha tanmatra sparsha tanmatra so depending on what we are trying to do right whether we are looking at a book or we are touching something or we are hearing something or we are tasting something right so depending on that the chitta will re receive the appropriate tanmatras from the external object whether it is uh, rupa tanmatra rasa tanmatra in this case it will receive the rupa tanmatra and it will take the shape of the book and the aham tatva will see the book aham tatva will see the book on the chitta and all this is only possible because of the maha tatva which is the feeling of i or the knowledge of the self kitabata avagatamba कोऽपि प्रश्नः अस्ति वा अस्तु अस्तु तर्हि अत्र विजयपद्मी वदतु वदतु अत्र मनसः त्रयः भागाः के के सन्ति भाववत्तु शब्दः एव खलु प्रथमं नमस्कार भगिनि नमस्कार भगिनि मनसः त्रयः भागाः के दि काम्पोनेण्ट् आफ़् द मैण्ड् काम्पोने आफ़् द मैण्ड् इदानीमेव उक्तं खलु शक्षुतः एतत् न केवलं त्रयः भागाः के चित्तम् अहं तत्त्वं महत्तत्त्वम् इति महत चित्तं महत्तत्त्वम् अनन्तरं चित्तं महत् अहङ्कारमपि अस्ति खलु अहं तत् अहं तत्तु समीचीनं समीचीनं तर्हि अत्र गार्गि किं सरिताभगिनी वदतु किम् अत्र किम् अवगतं यतावत् तत् किमुक्तम् आरभ्य अत्र मनसः विषये किमुक्तम् त्रयः भागाः सन्ति कथं तेषां कार्यं भवति इति एकवारं वदतु मनसः त्रयभागम् न श्रूयते भगिनि किञ्चित् तत्र स्पीकर् मध्ये अस्ति वा आं भगिनि इदानीं श्रूयते एवमेव वदतु आम् मनसः त्रयभागं वर्तते महत्तत्त्वम् अहं तत्त्वं चित्त चित्तं वयं यदि कोपि कार्यं करोति का तर्हि इन्द्रियाणि इंद्रेयान्द, दश इन्द्रियाणि वर्तते ते कार्यं कुर्वन्ति किन्तु यदि मनसः संयोक्तः न भवति तर्हि ऊपि कार्यं कर्तुं न शक्यते दश इन्द्रियाणि वर्तते पञ्चज्ञानेन्द्रियाणि ज्या, पञ्चकर्मेन्द्रियाणि ज्ञानेन्द्रियाणि भवति चक्षुः श्रोत्रं घ्राणं रस रसेन्द्रिया अपि च त्वगेन्द्रिया कर्मेन्द्रियाणि वर्तन्ते वाक् पाणि पादम् उपस्थं पायुं यदि वयम् उदाहरणतः दर्शनक्रियां क्रियते तर्हि चक्षुरिन्द्रियाणि सूचनां दीयते मनसः चित्तं तस्य आकृतिं गृह्यते गृह गृह्यते तदा अहं तत्त्व तत्र आकृतिं जानाति एवमेव महत्त आकृतिं पश्यति अहं तत्त्वम् आकृतिं पश्यति अहं तत्त्वम् आकृतिं पश्यति चित्ते महत्तत्त्वम् अहम् अस्मि अहं अहम् अस्मि इति ज्ञानं ददाति तर्हि अहं तत्त्वम् अहं पश्यामि इति ज्ञानं वर्तते एवमेव एवा, पुस्तकस्य ज्ञानप्रक्रिया भवति उत्तमं भगिनी बहु सम्यक् सम्यक्तया उक्तवती बहु सम्यक् सम्यक्तया अवगतवती आम् तर्हि चित्ते तत्र चित्ते, यत्किमपि विषयः यः कोऽपि विषयः अस्ति तस्य ग्रहणं भवति अहं तत्त्वं चित्तं पश्यति चित्तं पश्यति चित्ते यदस्ति तत् पश्यति चित्ते रूपमस्ति चेत् पश्यति रसः अस्ति चेत् रसं रसस्वादम् अनुभवति यदि शब्दः अस्ति चेत् तस्य ज्ञानं भवति इत्येवं रीत्या यत्किमपि भवतु तस्य ज्ञानं चित्तद्वारा भवति अस्तु अयं संस्कृत लभ्यते अहं स्थापयामि अहं अत्र किं किमर्थं मया न स्थापितमिति चेत् अत्र आर्कैव् डौन् आसीत् खलु गतवर्गपर्यन्तम् आर्कैव् डौन् आसीत् इति कृत्वा मया न स्थापितम् इदानीम् आर्कैव् सम्यक् जातम् इति कृत्वा अहं सर्वाणि करपत्राणि तत्र स्थापयामि आं धन्यवादः अस्तु अस्तु समीचीनम् अस्तु तर्हि अत्र स्थगनं कुर्मः अत्र एतत् चित्रम् अस्माकं मनसि अस्ति चेत् बहु बहु लाभदायकमस्ति यतोहि कथं तत्र अस्माकं प्रत्यक्षज्ञानं कथं भवति इति सम्यक्तया अवगन्तुं शक्नुमः अपि च तस्य अस्य अस्य सर्वस्य पृष्ठतः जीवात्मा अस्ति इति स न स्मर्तव्यम् अस्य विषये अपि अग्रिमे अग्रे आयाति अपि च जीवात्मानयोः विषये अग्रे परन्तु मनः अस्ति मनसः अपि पृथक् अन्यत् जीवात्मा अस्ति इति वयं पश्यामः इति तत्र एतत्तु विषये एतत् विषये पुस्तकमपि अस्ति महोदय दृक्दृश्यविवेकमिति पुस्तकमस्ति अस्तु अस्तु अस्तु तर्हि अत्र कोपि प्रश्नः नास्ति चेत् अत्र स्थगनं कुर्मः अहं वयं किञ्चित् शनैः शनैः वय एव गच्छामः यतोहि अस्माकं सम्यक्तया बोधः भवतु इति कृत्वा अथवा अधिक अधिकं न पठितम् आसीत् परन्तु विषयः स्पष्टः स्यात् अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः धन्यवादः धन्यवादः